नारदपुराणम् पूर्वार्थम् अध्यायं 96 सिक्स् ब्रह्मोवाच मरीचे शृणु वक्ष्यामि वेदव्यासेन यत्कृतम् श्रीमद्भागवतम् नाम पुराणम् ब्रह्मसंमिदम् तदष्टादशसहस्रम् कीर्तितम् पावनाशनम् सुरपादपरूपोऽयं स्कन्धैर्द्वादशभिर्युदः भगवानेव विप्रेन्द्र विश्वरूपी समीरितः तत्र दुप्रथमस्कन्दे सुदर्षीणाम् समागमे व्यासस्य चरितं पुण्यं पाण्डवानाम् तथैव च परीक्षितमुपाख्यानमिदिदम् समुदाहृदम् परीक्षित्सुकसंवादे सृष्टिद्वयनिरूपणं ब्रह्मनारदसंवादे देवता चरितामृतम् पुराणलक्षणम् चैव सृष्टिकारणसम्भवः द्वितीयोऽयं समुदिधस्कन्दो व्यासेन भीमद चरितं विदुरस्याध मैत्रेयेणास्य सङ्गमः सृष्टिप्रकरणं पश्चाद्ब्रह्मणः परमात्मनः काबिलम् साङ्ख्यमप्यत्र तृतीयोऽयमुदाहृदः सत्याश्चरितमादौ तु ध्रुवस्य चरितम् तदः पृथो पुण्यसमाख्यानम् तद प्राचीनबर्हिषम् इत्येष तुर्यो गदिदो विसर्गे स्कन्द उत्तमः प्रियव्रतस्य चरितं तद्वंश्यानां च पुण्यदं ब्रह्माण्डां तद्वदानां च लोकानां वर्णनं तदः नरकस्थितिरित्येष संस्थाने पञ्चमो मदः अजामिलस्य चरितं दक्षसृष्टिनिरूपणम् वृत्राख्यानं ततः पश्चान्मरुदां जन्म पुण्यदं षष्ठो यमुदितस्कन्धोऽभ्यासेन परिपोषणे प्रह्लादचरितं पुण्यं वर्णाश्रमनिरूपणं सप्तमो गदितो वत्स वासनाकर्मकीर्तने गजेन्द्रमोक्षणाख्यानमन्योऽन्तरनिरूपणे समुद्रमथनं चैव बलिवैभव बन्धनं मत्स्यातमाष्टमोऽयं प्रकीर्तितः सूर्यवंशसमाख्यानं सोमवंशनिरूपणं वंश्यानुचरिते प्रोक्तो नवमोऽयं महामदे कृष्णस्य बालचरितं कौमारं च व्रजस्थितिः कैशोरं मधुरास्थानं यौवनं द्वारकास्तिः भूभारहरणं चात्र निरोद्धे दशमस्मृतः नारदेन तु संवादो वसुदेवस्य कीर्तितः यतोश्च दत्रात्रे यण श्रीकृष्णो नोद्धवस्य यादवानां मिथों तश्च मुक्ता वेकादशस्मृतः निर्देशो मोक्षो राज्ञः परीक्षितः वेदशाखाप्रणयनमार्कण्डेयत्तपक्रिया सौरी विभुदिरुदि दासत्वदी च ततः परं पुराण संख्याकथनमाश्रये द्वादशो ह्यम् इत्येवं कथितं वत्स श्रीमद्भागवतं तव वक्तु श्रोतुश्चोपदेष्टुरनुमोदिदुरेव च साहाय्य कर्तुर्गदिदं भक्तिमुक्तिविमुक्दिदम् प्रौष्ठपद्यां पौर्णिमायां हेमसिंहमन्विन्निदं हेम सिंहसमन्वितं देयं भागवता यदं द्विजाय प्रीतिपूर्वकं सम्पूज्य वस्त्रहेमाद्यैर्भगवद्भक्तिमिच्छता कोऽप्यनुक्रमणी मेधां श्रावये शृणुया तथा स पुराणश्रवणजं प्राप्नोति फलमुत्तमम् इति श्रीभृतन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे श्रीमद्भागवतानुक्रमणीनिरूपणं नाम षण्णवतितमोऽध्यायः ओम्